फलानि च सुगन्धीनि भक्षितानि ततस्ततः सुगन्धाश्च वार्योघास्त्वच्छरीरविनिःसृताः अमृतास्वादनीयामे पीताः प्रस्रवणोदकाः शियुर्यथापितुरङ्के सुसुखं वर्तते न ग शैलराजमया प्रभो अप्सरोगणसङ्कीर्णे ब्रह्मघोषानुनादिते सुखमस्म्युषितः शैल तपसानुषु नित्यदा एवमुक्त्वार्जुनः शैलमामन्त्र्यपरवीरः दिव्यं द्योतयन्निव सतेनादित्यरूपेण स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा ऊर्ध्वमाचक्रमे धीमान् सो दर्शन पथंमर्तिया धर्मचारिण